सामित्रमष्टागपालम् राजन्निर्मपदे अष्टाक्षरा गायत्री गायत्रम् राजस्सवनम् राजस्वना देवैनम् गायत्र्या छन्दसोऽ राजस्वनमेव तेनाहाप्नोति गायत्री छन्दः समित्रे प्रसमित्र एकादशकपालम् मध्यन्दिने एकादशाक्षरा तृष्पे म् माभ्यन्दिन कुंसवनम् माभ्यन्दिना देवैनकंसवना दृष्टुभश्चन्दसोऽ निर्मिमेदे अतो माभ्यन्दिनमेव सवनम् तेनाप्नोति द्रष्टुभम् छन्दः सवित्रः सवित्रे द्वादशकपालमपराह्णे द्वादशाक्षरा जगती जागतम् तदीयसवनम् तदीयसवना देवैनम् जगत्या असौदरीनाप्नोति जगजेच्छन्दः ईश्वरो वाश्वप्रमुक्तः पराम् परावदम् गम् लोज स्वाहेहमिश्रुति स्वाहेहरम् स्वाहेहरमु स्वाहेर्जुनस्राहुदेर्जहोदिो दिशः दिग्भेवेन परिगृह्णादि आश्वत्सो भवति प्रजापच्जेवेभ्यो लिदाय अश्वरूपम् कृत्वा स्वश्वेदम् वत्सरमतिष्ठते तदश्वत्थस्याश्वत्थत्वम् यदा व्रजा भवति स्व एवेन यो आब्रह्मन् ब्राह्मणा ब्रह्मवत् यदा विद्याः ब्राह्मण एव ब्रह्मवत्य तस्मात् पुरा ब्राह्मणा ब्रह्मवर्त्यस्य जायता स्मिन् राष्ट्रे राजन्यलिशव्यश्रोरामः रसो जायतामित्याह राजन्यलेवमानन्दधादे तस्मात् पुरा राजन्य श्रव्यश्रोरामः रथोजायतोऽग्रेधेनुरित्याहेन्वामेव मयो दधादे तस्मात् पुरादोऽग्रेधेनुरजायत गोढानड्वानित्याः अनुडस्येव वेर्यन् तस्मात् पुरा वोढानड्वानजायत आशुःसप्तिरित्याह अश्व एव जन् दधाति तस्मात् पुराधुरश्वजायत पुरन्धियोषेत्याह योषित्येव नोरन्धारे तस्मा श्रीयुमतिप्रिया भावुगा जष्णोरथेष्ठा इत्याह आह वै तत्र ज्यष्णोरथेष्ठा जायते यत्र एतेन यज्ञेनैरन्ते सभे योजियाह योग सभेे तस्मापुमा भावुक आजमेलोताह आवे त्र यजमा बेलो जायतेन यगे नई कामे कामेन पर्जनयावर्ष्ह कामे काम हमे तर्जनयावर्षदे यत्र यतेन यज्ञेनैजन्ते फलिन्यो नवोढधयः पच्यन्तामित्याह फलिन्यो हवेदत्रौटदयः पच्यन्ते यत्र यतेन यज्ञेन येजन्ते योगक्षेमो न कल्पतामित्याह कल्पते हवेदत्र प्रजाभ्यो योगक्षेमः यत्र यदेन यज्ञेनैजन्ते प्रजापतद्धेवेभ्यो यज्ञान् व्यादिशत् स आत्मन्नस्त्वमे समधत्ता अन्देवाः ब्रुवन् एधवा वैद्यः यः स्वमेधः अप्येवस्विभ्यदेतानन्दहोमान् प्रायच्छत् तानजुहो अयर्वैतदेवानप्रीणात् जरन्नहोमान् दे, जुहोजे दे, देवानेपतेगमानप्रीणादि दे, आद्येन जुहोजे दे, अग्नेर्वा एतद्रूपम् यदाज्यम् यदाज्ञभोजे अग्निमेवदत्प्रीणादि मधुना विहोजे महत्यैवा एतद्देवतायै रूपम् यन्मथु यन्मधुना विभोजे महती तद्देवताम् प्रीणाते तण्डुलैर्जुहोदे पसूनाम् वा एतद्रूपम् यत्तण्डुलाः यत्तण्डुलैर्जुहोजे वृद्धानाम्ब एतद्रूपम् यत्पृथुकाः यत्पृथुकैर्जुहोगे वृद्धानेवदप्रे नादे लाजैर्जुहोदे आदित्यानाम्ब एतद्रूपम् यल्लाजाः यल्लाजैर्जुहोगे आदित्यामेवदप्रेनादे कलम्भैर्जुहोदे विश्वेताम्ब एतद्देवानाकम् रूपम् यत्कलम्ब एजहोज विश्वानेव तद्देवान् प्रेणादे धानाभिर्जुहोदे नक्षत्राणाम्बा एतद्रूपम् यद्धानाः यद्धानाभिर्जुहोगे नक्षत्राण्येवदत्रेणादे सक्तुभिर्जहोदे प्रजापतिकर्वा एतद्रूपम् यत्सक्तवः तत्सक्तुभिर्जुहोदे प्रजापतिमेवदत्वेनादे मसोऽस्येज्जिभवदे सर्वासाम्ब एतद्देवतानागम् रूपम् यन्मसोऽस्यामि यन्मसोऽस्यै येज्जुहोदे सर्वादेव देवनाः प्रेणादे दे, प्रियङ्गुतण्डुलैर्जुहते प्रियाङ्गाः वैनामैज एतैर्मै देवः अस्मस्याङ्गानि समदध यत्प्रियङ्गुतण्डुलैर्जुहवदे अश्वस्यैवाङ्गादेध्ये प्रजापतिरश्वजत तगम् द्रष्टकम् रक्षाकस्य स्वगेतान् प्रजापदम् नक्तकम् भोमानपश्यत तान् जहोदैर्वन् रक्षाकस्य वाहन् यन्नक्तकम् भोमान् जहोदे देवदैर्मानो रक्षागस्य वहन्ते दे। आर्यैर्जहोदे वज्रो वा आज्यम् वज्रेणैव यज्ञान् रक्षागस्य वहन्ते आर्यस्य प्रतिपदम् करोदे प्राणो वा आज्यम् मुखददेवास्य प्राणम् दधादे अन्नहोमाञ्जहोदे शैरवदेवावरुन्धे गत्यासञ्जहोदे उभयस्यावरुद्धे अक्तम् च भवते अक्षता भवति प्राणोपाद्योपरिष्टाच्च एकस्मै स्वाहेत्याह अस्मिन्नेव लोके प्रतितिष्ठते द्वाभ्यापि स्वाहेत्याह अमुस्मिन्नेव लोके प्रतितिष्ठते उभयोरेव लोकयो प्रतिष्ठते अस्म्यश्चामुष्म्यग््यश्चय स्वाहेत्याः श्रावे गुरुडर्यः आजलेवरुन्धे सहस्राय आजले आजले स्वाहेत्याः आयम्वे सहस्रम् आजलेवावरुन्धे सर्वस्मये स्वाहेत्याः अपरिमितमेवावरुन्धे प्रजापतिम्बालेडयेच्छदेत्याहश्वमेधेन आगो पाहे तुझा तमे दे, कहा, अथो सर्वाण बोजानी एकहेजर्वाने तमेवाजे एक जोज अभीर्गकमेज एक जुहोज एक बर्ग लोकमेज सन्तत जुहोजेवर्ग से लोकस शदाय स्वाहेत्याः शदायम् वै पूर्णः शतवेयुदेव वेद्यावृन्धे सहस्राय स्वाहेत्याः आयम्वे सहस्रम् आयुरेववृन्धे वैलायस्वाः नीताय स्वाहा त्रिताय स्वाहेत्याः त्रयमे लोकाः इमानेव लोकावृन्धे अर्बुदाय स्वाहेत्याः वाद्वा अर्बुदम् पाचमेवा वृन्धे नियद्बुधाय स्वाहेत्याह यो वे वाच भौमा कन्यद्बुदम् वाचमेव भौमा नव वृन्धे समुद्राय स्वाहेत्याह समुद्रमेवाप्नोदे मध्याय स्वाहेत्याः मध्यमेव आप्नोदे पन्ताय स्वाहेत्याह परार्थमेव आप्नोदे स्वाहा व्युष्टे स्वाहेत्याः रात्रिर्वाषाः अहोरात्रे एवावृन्धेहोरात्रयोरेव प्रतिष्ठते तायु भरेऽिवानक्रम्भात्रे मोहरे स्वाहा स्वाहो स्वाहो स्वाहेत्यनुजिते जहोदे स्वाहार्गाय स्वाहा लोकाय स्वाहेत्युजिते जहोदे अहोरात्रयोगव्यमोहाय विभो मात्रापित्रेत्यस्वनामानुजहोदे उभयो लोकयोर्नामधेयम् आयनाय स्वाहा प्रायणाय स्वाहेत्युग्रामाञ्जहोदे सर्वमेवे नमस्कन्दुवर्गन् लो गङ्गमयते अग्नये स्वाहाय स्वाहेतु पूर्व होमान् जोदे पूर्वरेव हो द्विदन्तम् भ्रातव्यमतिक्रामदे पृथिव्यये स्वाहारिक्षाय स्वाहेत्याह यथा यजुरेवे अग्नये स्वाहा सोमाय स्वाहेतु पूर्वजीक्षा जोदे पूर्वदेवरन्तम् भ्रातर्जमति क्रामदे स्वाहान्तरिक्षा विवाहेत्येकविकविंशति सर्वैदेव लोकाः द्वादशमासाः पञ्चत्तमः त्रयजमे लोकाः असमादि त्रिकविशः एष सुवर्गो लोकः सुवर्गस्य लोकस्य भगवदेवानाम् कर्मणेत्यजुदीक्षा विभोते ैकल्पयते अग्नये स्वाहायवे स्वाहे ऋत्यनन्दनित्ये पर्वाणि यज्ञः सङ्ग्रामत्वित्याे स्वर्गस्य लोकस्यात्ये भोदम् भव्यम् भविष्यति मर्यादेहोदे स्वर्गस्य लोकस्य मर्याते आवेद्राहो मन्दिरत्या भवद्दे स्वर्गस्य लोकस्याभूते अग्निनादोन् स्वर्गस्य लोकस्यानुभोद्येताय स्वाहे नमस्त्राणि महेश्वरे समस्तमेव स्वाहेत्यङ्गहोपाञ्जहोदे अङ्गेरङ्गे मे पूर्णस्य महात्मावशिष्टः अङ्गालङ्गादेवेयम् महात्मात्रेन मुञ्चदे अञ्जेता यस्वाः कृष्णा यस्वाः श्वेता यस्वाहेत्तस्वरूपाणि जहोदे रूपेण्वाहेत्यः पुष्पेभ्योन्याः फलम् गृह्णन्ते मूलेभ्योन्याः वनस्पतिभ्यस्वाहेतुवनस्पति होमाञ्जहोदे आरण्यस्यान्नान्यस्यावरुध्ये मेघस्त्वात्यपाहोदे प्रां प्राणानेवावरुन्धे कोऽप्याःभ्यस्वाहेत्यञ्जहोदे अन्नम् भावः अर्धो वा अन्नम् जायते रुन्धे वसो नाकुम् साहिभ्यम् गच्छदे अग्र्यम् ज्योतिरवृन्धे न भागम् अन्तरिक्षं वै न भागुम् तस्य रुद्राधिपदजः ्योतिः यन्नभागम् सज भवते अन्तरिक्षमेवावरुन्धे रुद्रानागम् सायिव्यम् गच्छते पायुञ्जरवृन्धे महागुंसि भवते असौरे लोको महागुंशे तस्यादित्यावदिनः सौर्योतिः यन्महांसिज भवते अनुमेव न्यम् गच्छते सौर्यम् ज्योतिरवरुन्ध्ये कमोराज्येन वरुणायति यव्यानि जहोज अन्नाद्यस्यावरुध्ये मयोत अभिवादो गव्यानि जे पुषूनामवरुध्ये प्राणाय स्वाहाय स्वाहेति सन्तति होमाञ्जहोते स्वर्गस्य लोकस्य सन्तत्ये सिताय स्वाहाय स्वाहे स्वर्गस्य लोकस्य प्रमुक्ते स्वाहाय स्वाहेत्याह चेत दत्त्व स्वाहे होमाञ्चलोकमेव तयेजमानावरुन्धे कस्त्वायुनक्तिपरि लोकाः परिधयः इमानेवात्मै लोकानि विभक्ते स्वर्गस्य लोकस्य दमष्टे यः प्राणो यदा विमानो जुहोदे स्वर्गो वै लोको महा स्वर्गमेवदाभ्याः लोके विधमानो वरुन्धे आ ब्रह्मवत्पुषेतानि ब्रह्मवत्सदानि जहोदे ब्रह्मवत्समेन्धे वैदमिति अग्रे समनवत्पृथिव्यै समनमतिनिसन्नति होमान् जहोदे स्वर्गस्य लोकस्य सन्नत्ये भूता विस्वाहा भविष्यते स्वाहेरिभूता अयम् वे लोको भूताम् असौ भविष्यते अनयोरेव लोकयो पुनतिष्ठते सर्वस्याप्ये सर्वस्यावरुद्ध्यै विरक्रन्दः प्रथमञ्जायमानयश्वहोजे सर्वस्याप्ये सर्वस्व नित्ये सर्वमेवतेनात्मोदे सर्वम् जयते योगस्वमेधेन गजते यौदेन वेद यज्ञकम् रक्षाकस्य निधागम् धन्न स्वदेपदन्नक्तगम् भोमानपश्यत् तान् वेदयज्ञान् रक्षाकस्य वाहन् यन्नक्तगम् भोमान् जोदे यज्ञादेवतेजमानो रक्षाकस्य वहन्ते उषते स्वाहाव्युष्टे स्वाहेऽत्यन्ततो जहोदे स्ववर्गस्य लोकस्य समष्टे एकयोपो वैकादशिनैव अन्येषाम् विज्ञानाव्योपा भवन्ति एकविकंशन्य स्वमेधस्य स्ववर्गस्य लोकस्याभिजत्यै वैरवो वा खादलो वा पा पालासो वा अन्येषाम् यज्ञक्रतोनान्योपा भवन्ति राज्युदालेकविगुम्धत्यरस्वमेतस्य स्ववर्गस्य लोकस्य नमष्टे नान्येयाम् पशोनाम् ते जन्या अपद्यन्ते अपद्यन्त्यश्वस्य पात्मा वेदे जने पात्मनापहत्ते दक्षशाखायामन्येषाम्बशो नामहद्यन्ते वेदशाखायामश्वस्य अप्सजोजम्बाश्वः अप्सजो वेदसः देवाश्रयो नापपद्यते योपेष् ग्राम्यान् पशोनियुञ्जन्ते आरोग्येष्पारण्यान् धारयन्ति पशूनाम् व्यावृद्धे आग्राम्यान् पशून् लभन्ते प्रारण्यान् सृजन्ते पाप्मापहत्ये राज्यदानमज्येष्ठम् विलमते श्रोणहत्यापहत्ये पौद्रवा महितो भवतः पुण्यस्य गन्धस्यावरुद्धे प्रोडहत्यामेव पुण्येन ग्रन्थेन भेदपरिग्रन्थादे षड्वेरा भवन्ति ब्रह्मवक्षरस्यावृद्ध्ये षट्प्रादिराः तेन सोऽवर्ध्ये षट्प्राकाशाः स्वीकस्यावर्ध्ये एकविंशतिः सम्पद्यन्ते एकविंशतिर्वेदेव लोकाः द्वादशमाचः पञ्चक्तवः तेन लोकाः इत्यनेकविपुंसः एष सुवर्गो लोकः स्ववर्गस्य लोकस्य नवष्णम् वजवो भवन्ति शदाय पूर्णः आयष्वेव प्रतिष्ठते सर्वम् वा स्वमेऽध्याप्नोति अपरिमिला भवन्ते अपरिमिलस्यावलुब्धे ब्रह्मवायुना वदन्ते कस्मात् सत्या दक्षिणतोमेजाम् पशो ना नाम पद्यन्ते उत्तरतोस्येते वारुणो वा श्वः एषा वरुणस्य लिगे स्वायामेवास्य निश्चपद्यते यतो नाम पद्यते शतदेवन्ते नावगृन्धे चिते गणेश्वः अप्सजो मेदः स्वयते पुरस्तात् प्रत्यञ्चन्तो परम् चिनोदे पश्चात् प्राचीनम् को मृगम् तथापि नश्वन्तो मृगमितरद्बहुधेताम् जहोति येषाम् लवकानामभिजत्य आत्मनः अभिजहते सात्त्वान एव कुशलनम् करोते सात्वामुष्मल्लवके भवते अथो वसो रेवधारान्तेनावरुन्धे इरुवर्दा यस्वाः वरिवर्दा यस्वाहेत्याह संवत्सरो वा इरुवर्दः परिवत्सरो वर्धः संवत्सरादेव वरिवत्सराजावरुन्धे आयुरेवास्मिन् तस्मादश्वमेत जाजी विश्वरामुण्डोकमेकविकुंशो वाग्निर्भवते एकविकंशस्तो मह एकविंशतिरियोपानाः यथा वाणः सज्ञः स्फुरेणन् एवमेतत्सोमाः सज्ञः स्फुरन्ते यदेकविंशाः त्रे यत्सवक्षेरन् अन्येतास्तेज्ञः द्वादश एव आज्ञस्य आदित्याहो द्वादशस्तोमः एकादशयोगानाः यद्वादशराज्ञवादशमासाः संवत्सरः संवत्सरेणैवात्मान्नमवरुन्धे यद्दशयोगा भवे दशाः कृदा विराट् अन्नम् विराट् विराटैवान्नाद्यमवरुन्धे यदेकादशः शर एवास्यैषः गृहे वेदान्तेन ना। कृदाहो यद्वादशो द्वादशस्तो एकादशयोगाः यथा स्थूरिणायात् ताजत्तत् एकविंशदेवाक्यस्या नित्याहुः एकविवंशस्तोमः एकविंशतिरियोगाः वदन् योगः अश्वमेधे निष्लः वेदुच्छाज्ञाम् भवति एकविपुंशो वाक्यर्भवते एकविंशस्तोमः एकविंशतिरियोगाः एताव अश्वमेधे निस्लुभः यदेवम् वेद अकुद्धराज्ञानम् भवति यो वा अश्वमेधे त्रीणि शीर्षाणि वेद शिरोहराज्ञानम् भवति एकविपुंसाधिर्भवति वेगविपुंसस्तोमः एक एक वेकविपुंसृोपाः वेदानि वा अश्वमेधे त्रीणि शीर्षाणि त्रिम् वेद शिरोहराज्ञानम् भवति देवा वा अश्वमेधे भवमाने स्वर्गल् लोकन्न प्राजानन् लाकमञ्च वेद अश्वापे तुर्गम् लाकमञ्चसा वेद यदुद्घातो अश्वमद्गेथाय वर्णयते वृथानयते एवमेवेन अश्वस्वर्गम् लोकमञ्च जानयते पुष्मन्वारभन्ते स्ववर्गस्य लोकश्रमणे हिङ्गरमते स्वामेवाकः हिङ्गरमते मद्गेशदेवाः सदः वटवन्धन्ते विशत्रायप्रजाःपघातार उपगायन्ते प्रादिगेव उदगादीतस्वामे दैत्याः प्राजापत्योपाश्वः प्रजापतिरोद्गेसः उद्गेतमेवावन्धे रथोरक्षामयोरेव पुनक्षते हिरण्येन उपाकरोदे ज्योतिर्वे हिरण्यम् ज्योतिरेव मतो हिलमानेन प्रजा हिरण्यज्योतिरेव इडमानस्य अग्नम् लोकमेदे यज्ञः यज्ञप्रजापतेः गृहस्य पशोन् नियुञ्जन्ते यज्ञादेव तत् यज्ञम् पयन्ते अश्वन्तोपरङ्गो मृगम् निष्ठा लभते सेनामुखमेव तत् शक्यते तस्मात् राजमुखम् भेष्मम् भावुकम् आज्ञेयम् कृष्णग्रीवम् पुरस्ताद् पूर्वाज्ञस्मात् पूर्वाज्ञम् पुरस्तास्थापयन्ति न्वञ्चम् अन्नम् वे घोषा तस्मात्त्वज्ञाप्यमाहन्तेपरिष्ठाद्रो वेदाजन्योन्नम् अन्नाद्य नैव परिगृह्णादे तस्माद्राजन्योन्नादो भावुकः आग्ने कृष्णेवो बाह्वोः बाहुवो नैव वेम् धत् ुकः धत्ते तस्माद्राजन्य प्रो पृष्ठे ब्रह्मवस्त्रो अथो नव सन्नद्धो भेजम् करोते धात्रे पुटोदनपदस्ताय पृष्ठामेवेताम् कुरुते रथोयम् वैधाता रस्यामेव प्रचतिष्ठते शौर्यम् वलक्षम् पुक्षे उत्सेधमेव पजम् कुरुते तस्मानुच्छेधम् भजे प्रजाभिनर्निशयन्ति ओ प्रजापतिरस्वजत स्वस्माच्छोपाहार तमष्टादशभिरणप्रायुग तमात्वाष्टादशभिरमारुन्ध यदष्टादशिनः लभ्यन्ते यज्ञमेव ते रात्वा विरमानोपरुन्धे संवत्सरः समा एषा प्रतिमा यदष्टादशिनः द्वादशमागाः पञ्च तव संवत्सरो अष्टादशः यदष्टादशिनः लभ्यन्ते संवत्सरमेव दे आत्वानावन्धेष्ठेऽन्याम् प्रसोदपाकरोति विदरे शुष्टा दृशिमाजामित्वाय नव नमारभ्यन्ते नवे यत्त्वाय निरारण्ये सङ्गये युवस्रेनाम् पिता पुत्रौ व्यद्धानक्रामे ग्रामयो ग्रामान्तौ स्यादाम् ्याघ्रा व्याजने अपशपेण्याः विदारण्ये सज्ञष्ठापने क्षिप्रे यजमानमरण्यम् मृदगंहरेयः अरण्यायत्यारण्यापशवजने यत्पशोन्नालभेदा अनवरुद्धास्य भजवस्य यत्पर्यकृतानुवेषु तेनैव पशो नेशसाय अवद्धा पशवाभवन्ते अयज्ञवेषसम्भवते महिलमानवरण्यम् मृतगम् हरन्ते राम्यैः सग्रष्टामयते एते नाम स्वंविधा पुत्रापस्कतः समध्वानक्रामन्ते समन्दिनम् व्याधिने ते प्रजापदकामे दोभौ लोकावरुन्धेयते स एतानुभयान् पशो न पश्यन् ग्राम्यानिश्चारण्यानिश्च तानानुभदा कैरवेदोभौ लोकावरुन्धा ग्राम्येरेव पशुभिमन्दाकमवारन्ध वारण्येमम् यद्ग्राम्यान् पशुनानुपदे इमेव यदारण्यान् अमन्तये अनवरुद्धो वा एतस्य संवत्सर इत्यावह चैतैतश्चादुर्मास्यादिवत्सरम् प्रयुङ्कैते एतावानुवैदम् वत्सरः यच्छादुर्मास्यानि यजतेजा स्यात् प्रसवः लभ्यन्ते प्रत्यक्षमेव ते संवत्सरे निवा एष प्रजावशुपरि संवत्सरम् प्रयुङ्क्ते संवत्सरः स्ववर्गो लोकः स्ववर्गम् तोकन्नापराध्वानि लो प्रजा वैपशव एकादशिने आक्षादेव प्रजाम् पशो न सा दृष्टाश्वमेधम् प्राविश्रायुङ्मात्मो कामा त्वादशभिमानन्दा यद्दशिना लभ्यन्ते विराजमेव ते आत्त्वादमानावरुन्ध पृष्ठप पेष्टुः पशवः पशोमेव वृन्धे पैश्वदेव वा अश्वः नानादेवत्याः प्रशव भवन्ति अश्वस्य सर्वत्वाय नानालोपा भवन्ति तस्मान्नालोपाः पशवः बहुलोपा भवन्ते तस्मात् बहुलोपाः पशवः सबन्ध्ये अस्मैवे लोकाय ग्राम्या प्रशवः लभ्यन्ते अमुष्माह यदि ग्राम्यान् प्रशो नालभते इममे रदे लोकमवरुन्धे यदारण्यान् अवन्धेः उभयान् प्रशो नालभदे ग्राह्म्यागश्चारण्यागश्च उभयान् लोकजानवरुध्ये उभयान् प्रशो नालभते ब्राह्म्यागश्चारण्यायश्च उभयस्यान्नान्यस्यावरुध्ये उभयान्वशो नालभते ्यागश्च उभरेणाम् पशो नामोरुध्ये त्रयः त्रयो भवन्ते त्रयजिमे लोकाः वेषाल्लोकानामाप्तये ब्रह्मवादिनो वदन्ते तस्मात् सत्याद् अस्मिल्लोके बहवक्कावादिते चभ्यो वेपदाभ्योन्येऽन्ये पदवः आरभ्यन्ते अस्मिन् देवदौ लोके कामानाम् दशाते अस्मानस्मिन् लोके बहवः कामाः त्वया त्वयाः त्वयावदोकाः येषाम् लोकानामाद्ये येषाम् लोकानाम् कृत्यै पर्यज्ञगतानारण्यार्थैकम् धायै चिन्तम् जग्रथमित्याह असौ वा आदित्यो ब्रः आदित्यमेवास्मै ने अरुणमित्याह अग्निर्वारुणः अग्निमेवस्मै विनक्ते चरन्तमित्याह वायुर्वेदरन् वायुमेवास्मै वक्ते वलितस्थुत इत्याह इमेवै लोका पलितवानेवास्मै नक्षत्राणि वे रोदनादिवे नक्षत्राण्येवास्मै रोदयते पुञ्जन्तस्य काम्येत्याह कामानेवास्मै विनक्ते हरे विवक्षसेत्याह इमे हरे विवक्षसा इमे देवास्मै विनक्ते शोणाशक्ष्मो निवाहरेत्याह होरात्रे एतादेवस्मै देवतायनक्ते स्वर्गस्य लोकस्य नवशे केदम् गृह्मन्न केतमैकजम् हरिमुञ्चते यश एवमित्याह यथा इदेवे देवन्धानस्य विदः विजमानम् पादयत्यभिजत्ये परामायणस्य विद्येते यस्य पुरुषर्वागतमन्यत्रयास वायुर्म स्तोताः वायुवेस्य परस्तादृशात्यावृत्ते तथा वेहविदृहीतस्य स्कन्दते एवम् बालेन स्वस्य स्कन्दने यदस्योपागतस्य लोमा निषीयन्ते यद्बालेषु काचानाहयन्ते त्सम्भरन्ते भवद्भवस्वरिति प्राजावत्या विरामयन्ते प्राजामत्यो वा स्वदेवेन समर्थयन्ते भोजने भुव इति मावादा स्वरिति परिवृत्ते एनाम् रागानामभियत्य हिरण्ययाः राजा भवन्ति द्वौ दर्वे हिरण्यम् राष्ट्रवस्वमेधः योगिश्चैवास्मै राष्ट्रम् च समेते दधाते सहस्रम् भवन्ति सहस्रम्विदस्वर्गो लोकः स्ववर्गस्य लोकस्याभिजत्यै अपवा वेदस्वात्तेजयन्त्रियम् पदवश्रे क्रामन्ते योश्वमेधेन यदवस्वान् यन्तुकारेण चन्दधे निमयश्यभ्यनक्ते तेजोगाज्यम् तेजोगायत्रे तेजदैवास्मै तेजोवृन्ध रुद्वास्त्वान्यतरैगृहेण सन्ददे वा ते दोवा आज्यम् द्रष्टुव तेजदैवास्मा इन्द्रियमवरुन्ध आदित्यास्त्वा छन्दतेति परिवृत्ते ते दोहा आज्यम् पशवो जगते तेजदैवास्मै पशोरवरुन्ध पत्रभ्यञ्जन्ते श्रिया वा एतद्गोपनम् यत्नत्रयः यशो तद्दधते अपक्रामन्ते लाये नमश्वायोपाहरन्ते प्रजामेवान्नादे कुरुपदे एतद्देव अन्नवत्तैतदन्नमध्ये प्रजापदैरि प्रजायामेवान्नाद्यन्देनामदिग् अवयवत्यौस्ते पृष्ठम् पृथिवेत्यश्रवणमन्त्रगते समिध्यो अञ्चम् कृतम् मदीनामित्यश्व भवन्ति खलु भक्त्वा च एतदथावारेण ब्रह्मवत् कलेन ब्रह्मा यद् ब्रह्माद्यम् वदतः एतदा देवीनम् ब्रह्म वत्केन गतवर्धेदः दक्षिणतो ब्रह्मा भवते दक्षिणतायत ्रह्मवच्चिणतो दधाते तस्मादुत्तरोमितलः योगमभितो वदनः यजमानदेवत्यो वै योगः विजमानमेव ब्रह्मवर्तजेन जलमध्वजः यज्ञस्मित्पूर्वजत्यरित्याहोर्वे वृष्टिः पूर्वजत्यः दिवमेव वृष्टिमवृन्धे यज्ञस्मि राजेद्बृहद्वयरित्याह अश्वमे बृहद्वयः अश्वमेवावरुन्धे यज्ञस्मि राजेत्पि सङ्खिलेत्याह रात्रिर्वेऽपि सङ्खिलः रात्रिमेवावरुन्धे यज्ञस्मित् लिप्लेत्याह श्रे मिलिप्ला अन्नाद्यमेवावन्धे कस्मि नागेतरदेत्याह वसोवाले नागेजर एतदेवावन्धे कवस्मिद्यायुलेमुलमावेरायुमुलः आयुलेमावन्धे यज्ञस्य हिमस्य भैडजमित्याह अग्रे हिमस्य भैडजम् ब्रह्मवर्जनमेवावृन्धे यज्ञस्य रापवनम् वहदित्याह अयम् वै लोकापवनम् महद अस्मिन्नेव लोके प्रियगच्छने वृक्षामित्त्वा भवन्तम् पृथिव्या इत्याह वेदवै भवन्तः पृथिव्याः वेदवेमावृन्धे वृक्षामित्त्वाभुवनस्य नाभिमित्याह यज्ञो वै भवनस्य पृच्छामि तृष्णवार्श्वस्वरेत्याह स्वमवै वृष्णवार्श्वस्वरेण स्वमवेधमेवावृन्धे पृच्छामि वाजःपरमम् व्योमेत्याह ब्रह्मवैवाजःपरमम् व्योम ब्रह्मवचनमेवावृन्धे अपमानेतस्मात् प्राणाक्रामन्ते स्वमेधेन साधाते नास्मा प्राणापक्रामन्ते अवन्तेष्ठावन्ते स्वावन्तोयन्ताः प्रियाणाम् अवष्ठमाप्रियाणाम्भवते अथो ध्वन्ते वैनम् अथोज्ञास्मै त्वःपर्यन्ते ते इमे लोकाः येभ्येवैनम् लोकेभ्यो धुवते ते पुनः पर्यन्ते षट्सम्पद्यन्ते षड्द्वारवः ऋतुभ्येवैनम् धुवते अपवादे क्षत्राणाक्रामन्ते यज्ञे धुवनम् तद्वदे परिजन्ते नमै पुरुषे प्राणाः प्राणापक्रामन्ते अहम् एवम्बेन वा दनेत्याहैवैनामुपनयते सुवर्गे लोके सम्भवन् वा सामित्याह स्वर्गमेवैनाम् लोकम् आहवजानिगद्वसमात्मजानिगद्भमित्याह प्रजावेव समो गर्भः प्रजावेव पशूनात् बन्धत्ते वा सुवर्गम् वागन्न प्राजानन् नमस्वप्राजानान् यत्सोदे कल्पयन्ते स्वर्गस्य राघस्य प्रज्ञाच्च गायत्रे त्रस्तव्यजगदेत्याहवेत तय्यः सोच्चो भवन्ते अयस्मय्यो रजताहरिण्यः अस्य वै लोकस्य रूपमयस्मय्यः अन्तरिक्षस्य रजताः दिवो हरिण्यः दिशो वा यस्मयः अवान्तरदिशाण्यः दिशदेवास्मै कल्पयते कस्माच्चेत्रायिकम् जाये अपवादे तस्माक्षेयाष्ट्रम् ग्रामदे स्वमेधेन यजते वोद्ध वेनामुच्छ्रयदादित्याः शेर्वै राष्ट्रमस्वमेधः शिरमेवास्मै राष्ट्रमोऽध्वमुश्रयते रेण भारम् गिरा विवेत्याः राष्ट्रम् वै भारः राष्ट्रमेवास्मै परिजोहते अथास्यामध्यमे शेर ददामित्याह शेर्वैराष्ट्रस्य ैराष्ट्रस्थीलोधेणत्येत्याहरिवः राष्ट्रम् च नमेतेत्याह तस्माद्राजापश्यते श्रोत्राय धनायते तस्माः द्वेषे वक्रन्नाभिञ्जन्ते ये यकाशगन्धिकेत्याः विद्वेषगन्धिका राष्ट्रवशेषः तस्मात् लक्वन्ते आहलम् गभे पदयत्याः द्वैगभः राष्ट्रम् वदः राष्ट्रमे विश्राहन्ते तस्मामिघागवम् माताजने पिता जनैत्याः इयम् वै माता असौ पिताम् वृक्षस्य राहीत्या पिता गभे मुष्टिपदकम् इत्याहे ग्राष्ट्रम् मुष्टिः राष्ट्रमे विश्राहन्ते तस्माष्ट्रम्यम् अपवाहे तेभ्यः प्राणाक्रामन्ते ये यज्ञेभोम् वदन्ते तथिक्राकाशमिति तदभिमन्ते प्राणावेदर्भयः प्राणानेवात्मन् दृशते प्राणावक्रामन्ते आभोगेष्ठापयोमा भोगे सर्वा देवताः